Since time. यस्य निज्ञानमात्रेण कैलोग्यम् दशये क्षण साधि शिरः पातु शिखायामा नृतेश्वरी प्रलाटम् ब्रह्म दैवत्य गौ विजान्यप्रिया पातु प्रसङ्गायां स्तनौ मे मानु इन्द्राणि हृदयम् ब्रह्मवाणिनि उदरम् विश्वभोते च नाभौ पातु सुरप्रिय जगनम् नारसिंहे च पृष्ठम् ब्रह्माण्डधारिणि पार्श्वौ मे पातु पद्माक्षि ङ्गो <ISTuk password> भोत्रिकावतु पूर्वोरुकाररूपा चान्दोत्सङ्घाग्निकावतु चन्द्रयोः पातु वक्षोद्य मूर्खयोर्ब्रह्मशीर्षक सूर्यापदद्वयम् पातु ेतङ्गनचन्द्रम दायक्यः सर्वपाम पुण्यम् पविन्द्रम् आपद्यम् सर्वरोदनिवारणम् त्रिसन्ध्यम् यत् पचेद्वित्वा सर्वानुकामायमाप्नुयात् सर्वशास्त्रार्थ तत्पद्य स भवेदवित्तमः